श्रीहरये नमः अथ सप्तमोऽध्यायः मैत्रेय उवाच इत्यजेनानुनीतेन भवने परितुष्यथा अभ्यधायि महाबाहो ब्रंश्रूयथामिति श्रीमहादेव उवाचां नागं प्रजे सबालानां वर्णयेनानुचिन्तये देवमायाभिभूतानां दण्डस्तत्र धृतो मया प्रजापतेर्धत्तशिष्णो भवद्भजमुखं मित्रस्य चक्षुषेशेधभाकं स्वं बर्हिषोभगः पूषा तु यजमानस्य धद्भिर्जक्षतु पृष्ठभोग् देवा प्रकृतः सर्वाङ्गो ये मे उच्चेषणं दधुः बाहुभ्याम् अश्विनो पूष्णो हस्ताभ्यां कृतबाहवः भवन्त्वस्य वचान् ये तदा सर्वाणि भूतानि श्रुत्वा मे दुष्टमोधितं परिदुष्टात्मभिस्तातसाधु सात्वित्यथा ब्रुवन् ततो मेद्वां समामन्ध्र्य सुनासीरासहर्षिभिः भूयस्तद्धेव यजनं समिध्वत्वेतसो ययोः विधायकात् स्नेयेन चत यथाह भगवान् भवः सन्धतोकस्य कायेन सवनीय पशोः शिरः सन्धीयमाने शिरसि दक्षो रुद्रापि वीक्षितः सत्यः सुप्त इवोत्तस्थो ददृशे च अग्रथो मृढं दतावृषद्वज द्वेष कलिलात्मा प्रजापतिः शिवा बलोकातभवश्चरधत्रयिवामलः भवस्तवाय घृतधिर्नाशक्नोत् अनुरागतः औत्कण्ठ्यात् बाष्पकलया सम्परेतां सुतां स्मरन् गृच्छ्रात्संस्तभ्य च मनःब्रह्मे विह्वलितः सुधीहे ससंशनिर्व्यलीकेन भावेने सम्प्रजापतिः दक्ष भूयाननुग्रह अहो भवता दण्डस्त्वया मयि भृतो यदभिप्रलब्धः न ब्रह्मबन्धुषु च वाम् भगवनवज्ञान् त्वभ्यम् करेश्च कुत एव धृतौ व्रतेषु विद्या तपोव्रतधरान् मुखतस्म विभ्रान् ब्राह्मणान् परम सर्वविपत्सुपासि फालः पशूनिव विभो भ्रगृहीतदण्डः योऽसो मया विदिधत्वदृशा सभायां क्षिप्तो दुरुक्तिविषिकैर्विगणय्य तन्माम् अर्वाक्पतन्तं अर्हतं निन्दयाभा दृष्ट्याद्रयास भगवान् स्वकृतेन तुष्येत् मैत्रेय उवाच क्षमायैवं स मीद्वांसं ब्रह्मणाचानुमन्त्रितः कर्मसंतानयामास सोभाध्याय रुद्विघादिभिः वैष्णवं यज्ञसन्तत्यैतृकपालं द्विजोत्तमाः पुरोढा संनिरवभन् वीरसंसर्गशुद्धये अध्वर्युणात्तः विषा यजमानो विशाम्पते धिया विशुद्धया दद्यौ तथा प्रादुरभूत् हरिः तथा स्वप्रभया तेषाम् द्योतयन्त्याधिशोधसा मुष्णन्स्तेजपुपानीत तार्श्वेण स्तोत्रवाजिनां श्यामो हिरण्यरसनो किरीटजुष्टो नीलालकभ्रमरमण्डिधकुण्डलास्यः शङ्खवब्जचक्रसरसा भगतासि चर्म व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः वक्षस्य दिश्रितवधूर्वनमाल्युधार हासावलोककलयारमयंश्च विश्वं पार्श्वभ्रमद्वजनसामरराजहंस श्वेतातपत्रशिनोपरिरज्यमानः तमुपागतमालक्ष्य सर्वे शुरगणाधय प्रेणे भुःसकसोत्थाय ब्रह्मेत्रयक्षनायकः तत्तेजसा हतरुचः सन्न अप्यर्वा वृत्तयो यस्य महित्वा मभुवादयः यदमादि कृणन्ति स्म कृतानुग्रह विग्रहं दक्षो गृहीदार्हणसाधनोत्तमं यज्ञेश्वरं विश्वश्रुजां परं गुरुं सुनन्दनन्दात्यनुघैर्व्रतम् मुधा कृणं प्रभेते प्रयतः कृताञ्जलिः दक्ष उवाच धाम्नि उपराध चिन्मात्रमेकं अभयं प्रतिषिध्य मायां तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्याम् आस्ते भवान् अपरिशुद्ध इवात्मतन्त्रः हृद्विजौच तत्त्वं ते वयमनञ्जन रुद्रशापात् कर्मण्यवग्र हतियो यो भगवन्विधामः धर्मोपलक्षणमितं त्रिव्रत् अध्वराख्यं ज्ञातं यदर्थम् अधिदैवम् अथो व्यवस्थाः सतस्यावूचो उत्पत्त्यत्वन्यशरण उरुक्लेशदुर्गेन्तघोग्र यालान्विष्टे विषयं मृगदृश्यात्मगेहोरुभारः द्वन्द्वस्वभ्रे कलं मृगभये सोगधा वेज्ञसार्थतः पादौ कस्ते शरणधगत याति कामोपसृष्टः रुद्रवाच क्य भी मुन भी आसक्त आदरणाणीए यदि रिद्मा विव्यलोके भविद्धं, जपति न गण तत्त्ग्रहण ब्रहुर्वाच यन्मायया गहनया अपहृतात्मबोधा ब्रह्मादय सनुभृतस्तमसि स्वपन्तः नात्मन् श्रितं तव विधन्त्यधुना वितत्त्वं सोऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः ब्रह्मोवाच नैतत्स्वरूपं भवतोऽसौ पदार्थभेदग्रहैः पुरुषो यावदीक्षेत् ज्ञानस्य चार्थस्य गुणस्य शाश्रयो मायामयाव्यतिरिक्तो यतस्त्वम् इन्द्र उवाच यश्च्युत विश्वभावनं वपुरानन्दकरं मनो दृशान् सुरभिद्भिक्षपणैरुधायुतैर्भुजण्ठ उपमन्नमष्ठभिः पत्न्यूषो यज्ञोऽयं तव यजनाय सृष्टो विध्वस्तपशुपदिनाद्य दक्ष कोपात् यज्ञात्मन्नलिनरुचादृशा पुनीः ऋषयवूचू अनन्वितं ते भगवन् विचेष्टितं यदात्मना शरसिः कर्म नाजसे विभूतये यद उभसेदुरीश्वरीं न मन्यते अनुवर्ततिं भवान् सिद्धावूचू अयम् त्वत्कथां रुष्टपीयूष नद्यां मनोवरणक्लेशाधवाङ्निधक्तः त्रिषार्तोऽवो नः सस्मा यजमान्युवाच स्वागतं ते प्रसीदे स तुभ्यं नमः श्रीनिवासश्रिया कान्तयात्राहिनः त्वामृते दीशनाङ्गैर्मकः शोभते शीर्षणहीनगभन्तो यथा पूरुषः लोकपालवूचो दृष्टग्म्नो दृग्भि असद्ग्रैहैस्त्वम् प्रद्यग्द्रष्टा दृश्यते येन दृश्यं माया शेषा भवती या हि भूमन्यस्त्वं षष्टपञ्चभिर्भासि भूतैः प्रयोन्नतेन्योतयमुतस्त्वयि प्रभो विस्वात्मनीक्षेन्न पृथज्ञ आत्मनः अथापि भक्ते सतया उपधावताम् अनन्यवृत्यानुगृहाणवत्सला जगदुद्भवस्थितलयेषु धैवतो बहु विद्यमानगुणयात्ममायया रचितात्मभेदमतये स्वसंस्तया विनिर्वर्तितभ्रमगुणात्मने नमः ब्रह्म उवाच नमस्ते श्रिधस्वाय धर्माधीनां च सूतये निर्गुणाय च यत्काष्ठां नाहं वेधाभरेऽपि च अग्निरुवाच यत्तेजसाकं सुसमिद्धतेजा हव्यं वहे स्वध्वर आजसिक्तं तयज्ञियं पञ्चभितं च पञ्चभिस्विष्टं यजोर्भिः प्रणतोऽस्मि यज्ञं देवावूच पुरा कल्पापागे कल्पाये स्वकृतम् उदरीकृत्य विकृतं त्वमेवाद्यस्तस्मिन् सलिलवुरगेन्द्रातिशयने पुमान्शेषे सिद्धैर्हृति विम्प्रुसित अध्यात्मपदभिः स एवाद्याक्ष्णोर्य पतिः शरशिभृत्यानवसिषनः गन्धर्ववूचो अंसां सास्ते देव मरीचाधयये ते ब्रह्मेन्द्राध्यादे रुद्रपुरोगाः क्रीडाभाण्टं विश्वमितं यस्य विभूमन् तस्मै नित्यं नाथ नमस्ते करवाम विद्यातराषु त्वन्माययार्थमभिपद्यकळे वरेऽस्मिन् कृत्वा ममाहमिति दुर्मतिरुत्पथैस्वैहे क्षिप्तोऽभ्यसत् विषयलालस आत्ममोहं युक्ष्मत्कथामृतनिषेवक उद्वुधस्त्येत् ब्राह्मणावूचु त्वं क्रतुस्पविस्त्वं हुता स त्वं हि मन्त्रसमिदर्पभात्राणि च त्वं सतस्य द्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः त्वं पुरा गां रासयामहासुकरो दंष्ट्यापद्मिनीं स्तूयमानो न युजहर्तत्रयी घात्रयज्ञक्रतुः सप्रसीदत्वमस्माकमाकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणां कीर्त्यमाने नृभिर्नाम्नि यज्ञे सते यज्ञविघ्नाक्षयं यान्ति तस्मै नमः मैत्रेय उवाच इति दक्षकविर्यज्ञं भद्ररुद्रावमर्शितम् कीर्त्यमाने हृषि सन्निन्ये यज्ञभावने भगवान् स्वेन भागेन सर्वात्मा सर्वभागभोग दक्षम्बभाष आभाष्यप्रीयमाण इवानघा श्रीभगवानुवाचा अकं ब्रह्मा च जगतः कारणं परम् आत्मेश्वरमुभद्रष्टा स्वयं धृक् अभिशेषणः आत्ममायां समाविश्य सोखं गुणमयीन् द्विजन् सृजन् रक्षन् धत्रे सज्ञां क्रियोचितां तस्मिन् ब्रह्मणि अद्वितीये केवले परमात्मनि ब्रह्मरुद्रौ भूतानि भेते नाज्ञोऽनुपश्यति यथा पुमान्नस्वाङ्गेषु शिरः पाण्ड्यादिषु क्वचित् पराग्यबुद्धिं कुरुते एवं भूतेषु मत्परः त्रयाणाम् एकभावानां यो न पश्यति वैभिधां सर्वभूतात्मनां ब्रह्मं स शान्तिम् अधिगच्छति मैत्रेय एवं भगवताधिष्ठः प्रजापतिपतिर्हरिं अर्चित्वा क्रतुना स्वेन देवान् उभयतो यजत् रुद्रं स्वेन भागेन ह्युभाधावत् समाहितः कर्मणोधवसानेन सोमभानितरानभि उधवस्य स कर्तृग्भिः सस्नावभृतं ददः तस्मा अप्यनुभावेन स्वै अपाप्तराधसे धर्म एव मतिं धत्वा धृतशास्ते दिवं ययुः एवं दाक्षाय निहित्वा सती पूर्वकलेवरं वरं यज्ञे मेनायामिति मे शुश्रुमा तमेव दयितं भूय आवृङ्क्ते पथिमम्बिका अनन्यभावैकगतिं शक्तिः शुभेव भूरुषम् ये धत् भगवतः शम्भो कर्म दक्षाद्वरद्रुहः श्रुतं भागवताश्चिष्यात् उद्धवान्मे बृहस्पतेः इदं पवित्रं परं गीसचेष्टितम् यशस्यम् आयुष्यम् अघोगमर्षणम् यो निध्यथा कर्ण्य नरो नु कीर्तयेद् धुनोऽद्यकम् कौरवभक्तिभावतः इति श्रीमद्भगवते महापुराणे चतुर्थस्कन्धे दक्ष यज्ञसन्तानं नाम सप्तमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमहाराज के जय